पयोभिः लन्धेवत्रा जोर्भाभिवनस्पदे नामोढधे नागुम्रसः वायन्त्वावा वाजुनापजयामःर्गम् अस्कान्द्योः पृथिवे अस्कानभायुभागाः स्कन्ने माविश्वाभुवना स्कन्ना यज्ञप्रजनेतो अस्कानजनि प्राजने आस्कन्नाजाय जयः स्कन्नाजनधीमहि या पुरस्कारः विद्युदापतत् कान्तयतेना वेदे स्वाहा या दक्षिणतः या पश्चाद योऽ योपरिष्टः विद्युदापतत् कान्तयतेना वेदे स्वाहाय स्वाहा ध्यानाय स्वाहा वानाय स्वाहा चकृषे स्वाहा मनसे स्वाहा वाचेतस्वध्ये स्वाहा वोष्णे स्वाहा वोष्णे दशे स्वाहा प्रवृच्छा स्वाहा वोष्णे न स्वाहाय स्वाहा वोष्णे नृणाय स्वाहाघेताय स्वाहाष्माः घानुनात्रिभर्त्ये भारम् ऋगेण भौमादैवी अस्मत्सुक्तवनभाजे अर्जन्धये केनमन्वदा तेन सोऽवृधारयन् तेन सौर्यन् धर्मस्य रक्तः पुरेन्द्रियम् प्रदया मुभिर्धोय प्रजाभारोयास्ते अग्नायोस्पुनायनेयेनैन्द्रभयामुनाभयः संविधानः प्रजाविरग् प्रजापतिवादीनारोजेसरोजवत्सरोजे यावत्सरोजेवत्सरोजे विद्वत्सरोजवत्सरोजे तत्रैव सन्दर्शिनः वेष्मालक्षिणः पक्षः प्रजापुषम् शरुत्तरपशः एवम् तव मध्यम् पूरवक्षाश्चयः अपरवक्षाः पुरेषम् अहोरात्रा नेत्रश्चात्र कल्पन्दाम् कल्पन्दाम् कल्पनाम् अहोरात्राणि कल्पन्दाम् ये त्वे निवेदितमिति ुभः ओर्ध्वयेनः पाह्योहम् बहूनाम् इमानन्तम् परितोश्यकाव्यम् महित्वाद्याः समानः पुरायत्रिकृतम् पुनः पुनरोर्जागरयः मानवर्माव्यसानः मानयोः मान विषादीवापराधाः मास्ताः विषादामित्राणाविषादनम् अन्वादेहनः सखाया आदित्यानाम् अरे सप्तम्नाग्नेयम् तपस्परेत्यम् चक्रम् वयस्वर्णाः भवद्भुवस्तुभः मयिकेन्द्रियम् महदे मयि रक्षमय क्रदः मयिधाविसुवेयम्भर्माविभागमे आगो ग्रामसाधः ज्योतिषादः यज्ञेण पयसादः विकसादः तस्य तु नवजेमहे तस्य समजेमहे तस्य इन्द्रेण वेदस्य मधुपदः भक्षयामिवृष्णाय तेरिश्चामरि अग्नेघोरास्थल् आभिरमङ्गच्छमयम् दश्मः स्नेहि स्नेहिरिश्च उष्णादिशेताज उग्रादिभीमाजिलास्ते अग्नेघोरास्तवः आभिरमम् गच्छन् वेत्ते यञ्चमयम् दश्मः ञ्जयन्तो मासा श्रवयन्तो दापयन्तोवत्सस्वाहन्ततो खट् खाद छिन्धेन्द्रविरन्वन्धमिन्द्रन्धमिच्छा वद्रेणाजनेभ्यः आदम्बरस्वृत्यामृत्यग्ने नमः दृष्टे नमः त्रिस्ते नमः चतुस्ते नमः पञ्चकृत्वस्ते नमः दशकृत्वस्ते नमः शतकृत्वस्ते नमः आकृत्वस्ते अजकृत्वस्ते नमः नमस्तेऽस्तु्यक्तः भूत्वा तिषन्तम् मेभिराय संवृत्या मृत्यवेणय सा हत्याो शिवामस्मभ्यम् गृहनम् गृहेण दीर्घमुखिगृहणो मास्मलक्षिणवदः निषन्तमेव बाधासिद्धा तु लोकाले रक्षतान् भूतागतः कवितोनाशयाग्नेतद्भूतान्यन्माविश्ये माजम् वदसि विषदानपरामया तान्मृत्यामर्त्यवेन तार्त्या अग्निः सम्वदता रतार्थ्यो भवति सव्यमक्षिनिवेपि च मेहकस्य निरामदे अत्र आत्मा क्रमे हन्मे कर्मेण यमदग्निना विश्वावता ब्रह्मणाहतः क्रमेणा युङ्गराजाः अप्येताहरः अथो माताुद्राः अथो कृष्णाथ श्वेताः अथवा हराः श्वेताभिः सह सर्वे हताः आहरामद्यस्य हविषो यथा तत्सत्यम् यदमयमस्य जम्भयोः आदधाम ्रह्मणाद्वा जामि ब्रह्मणत्वा समथेन शवामि घोरेण त्वा भृगूणाम् चक्षुषा प्रेक्षेणत्वाम् विनताम् मनसा ध्यायामि रहस्यत्वाधारया विध्यामि असरोमत्मद्यस्पासौ उत्तरशमिदावरे कल्पे चेतल्प उद्दुला गिरी गुमरणप्रवेशया मरे चेदवसन्मुदा यावचितः पुरस्तादृदयाधिः यावचितोमुन्नादया यो स्वान्द्वेषे यम् च वयम् दृष्टः भोर्भवस्तु भो भोर्भवस्तुभो भोर्भवस्तुवः भो वायु भो अद्धायि भुवो अद्धायि धर्माय नर्मय नर्न धर्णाय नर्नम् निधाय्यो वागि निधाय्य वाय निधाय्यो वायि हे अस्मे अस्मे न्नज्योतेः पृथिवी समिदे साग्निः समिन्धे साग्निगुम् समिन्धे ता भागुम् समिन्धे तामासुविद्धा आयुजा तेजसा श्रिया किशः ब्रह्म वर्तते अन्नादेन समिन्धागस्वाहा अन्तरिक्षकम् समिदे ताम् वायुः समिन्धे सा वायुगुम् समिन्धे ता, ता, ता, ता, ता भागुम् आयुषा तेजसा वर्तसा श्रिया यशसा ब्रह्मवर्त्यसेन अन्नार्देन समिन्दाकस्वाहा यौः समिधे तामाहित्यः समिन्धे सा नित्यगुम् समिन्धे कामगुम् समिन्धे सामा समिद्धा आयुषा तेजसा वर्तसा श्रिया यशसा ब्रह्मवर्त्यसेन अन्नार्देन समिन्दाकस्वाहा राजापत्या मे समितवत् न क्षेणी राजव्यः मे विस्वाहा अग्नेयाम् व्रतपदे व्रतञ्जरिष्यामि तच्छगे यम् तन्मे राध्याम् वाया व्रतपदादित्यम् व्रतपदे प्राणाहम् व्रतपदे वृतञ्जरिष्यामि तच्छगे यन्तन्मे राध्याम् यौः समिदे कामादित्यः सा मासमिद्धा आयुषा तेजसा वर्तसा श्रिया यशसा ब्रह्मवर्चसेन अन्नाद्येन समिन्ताविस्वाहा अन्धरिक्षकम् समिते साम् वायुः समिन्धे सा समिन्धे सा महगम् समिन्ध्ये आयुषा तेजसा वर्चसा श्रिया यशसा ब्रह्मवर्चसेन अन्नाद्येन समिन्ता मिध तामज्ञः समिन्ध साज्ञम् समिन्ध तामहम् समिन्ध सा मा समिद्धा आयुषा तेजसा वरतसा श्रिया यशसा ब्रह्मवन्नाद्यन्ताविस्वाहा राजापत्या मे समितवर्षणे भातुर्यहा मे विस्वाहालिश्यव्रतव च प्रथमचारिषम् रथगन्तन्मे राधे वायोः व्रतपदे मे व्रतपदे व्रतानाहम् व्रतपदे प्रथमचारिषम्मे आधे षण्णो मादः पवदाम् मातरिष्मास्तपरसौर्यः आलिसम्भवम् समुषाणा व्यक्ष समादित्य उदे पुनः श्रीवानः सन्तमापसुमृका सरस्वती मा देव्याम सन्दृशे भूयात्ममा वाक्य वा भो याद्योन् वेत्रयम् च वयम् दुष्मः प्रतिष्ठाय प्रतिष्ठावन्त भूयात्मप्रतिष्ठाया च प्रतिष्ठस्भोयाद्यम् च वयम् दुष्मः आवादवाहिषे विवादवाहयद्रवः देवानाम् लोकयज अन्यावाद यो वादालन्ध्वरापराम् अन्य आवादपरान्यवाद्यस्य निधिरहितः इन्द्रस्य गृहासितम्बा प्रपद्युस्साश्वः मे अस्ति प्रवद्ये भु अप्रवद्ये सुप्रभद्ये भूर्भुवस्तु अप्रभ्ये वायम् प्रवद्ये नास्ताम् देवता प्रवद्येष्पानमाखनम् प्रवद्य प्रजापतेवचन्द्रम् अप्रभ्य वाम् प्रभद्ये अन्तरे क्षणपुरन्तरम् बृहदग्नय प्रवता श्रेयावादस्वस्त्यास्वस्तिमान्तया स्वस्त्यास्त्वस्तिमानधाने ृत्यार्मा बालम् प्राणाबाल माहाविष्टम् मयि मे छाम् मयि प्रजामयश्चालमयिमे छाम् मयि प्रजामयीन्द्रैन्द्रियन्द्रछामयिमे छाम् मय प्रजापादमस्मानष्टः अन्वामित्रा वरुणामा महन्तामतिरस्किन्धकृषये नामानाः अवध्वान्तमो वर्णे भवन्ति पेतय शय्यारभिस्वन्तु न ईशानावर्या क्षयन्देश्वरीयाम् समित्राणास्तस्मै भूयासयम् वयम् दृष्मः आभोहिष्ठामयभोस्तानभोर्जेदशादना महेरणाय चक्रसे योमश्रुवस्तस्य भारे देहनः शजेरिममातनः तस्मारङ्गमामो यस्य क्षया यजिन्वसा आमो जने सा जनः पृथिवी शान्ता साकिना शान्ता सा मे शान्ता सुजकम् समेत अन्धम् शान्तम् दद्वारिना शान्तम् तम् मे ेषान्तरन्दरक्षगुजान्तर्विषः सान्तरवान्तरधि सान्तरज्ञशान्तर्वान् निरादित्यश्चान्तश्चन्द्रमासाधर्मक्षदान्शान्तशान् गर्वन्तर्गौ शान्तरस्वशान् पुरुषशान्तर्ब्रह्मजान् नृ ब्राह्मणः शाम् दृश्यान्तशान् या हुशान्त्या धशान्त्या मह्यम् विपदे निरुष्पदेशान्तिम् करोमि अस्तु शान्तिः ये हसे चक्रेष्टमेधा प्रतिष्ठा श्रद्धा रत्नधर्मश्चैदानि मो त्तिष्ठन्तमनोत्तिष्ठन्तमाविश्वे चक्रे सर्वमेधाप्रतिष्ठा श्रद्धा रत्नधर्मश्चैदानि महामाहाजः पुरस्तार पश्याम जलश्रदम् जीव्याम शरश्रदम् नन्दामदश्रदम् मोदामरश्रदम् भवामिदम् प्रब्रवामीजामश्रदन्लयम् दृजय ्रह्मणः पमनमयम् पृथिवीम् ब्रह्मणामेधान्दाधारया मेधामने भोजस्य भव्यस्यामलुद्धे सर्वमायनयानि सर्वमायनयानि आभिर्भे नमो नमाध्यायवर्धमानः ब्रह्मप्रापायुष्मदन्तो महाधे ओम् शान्तिः नमो न मदन्तो न्तिः ओम् दृश्याम् दृश्रान्तिः विरुद्धपरिमितम् यशस्कामाः हे ब्रुवण्नः प्रथमम् यशरिच्छात् सर्वेषाम् नस्तस्रहार्ये एषाः कुरुक्षेत्रम् केचिदासीद तस्ये कान्नपिनार्थासेन तूर्भ्यमुत्तरार्धः परेण दहनार्थः बलवमुत्तरः एताम् मखम् वैदेकवैय आरक्षल कन्यकामेन तन्नेव निवायन् पुनरुत्समानाः तस्यागतस्य सव्यार्थवर्यायता दक्षिणा विधवः तस्मादन्मम् पुण्यजन्म यज्ञजन्माभिम् बहवानाभितृष्ण्वन् तस्मागैकमिषधन्विनम् बहवानिषधन्वानाभिश्वन्ति सोऽन्तम् शून्यमृजः ते श्यामाकाभवन् स्मयागावेनामैज तत्स्वयागानागस्मयागत्वम् अस्माद्ये खलेनाभिरुत्यस्मे दव्यम् यथाभिरुद्य समपि दुष्कभ्या तिष्ठते ता उपदेकाः गुरुवण्णामहे अथ विलगुम् रन्धयाम यत्रक्वशक्षनाम प्रथमाभिनदामे तस्मादुपदेका यत्रवशनन्ते प्रथमाभिनन्दे पारेव तज्ञासा तस्यमप्यन् तस्य यत्प्रावर्तदा तत्प्रवर्ग्यस्य प्रवर्ग्यत्वम् यद्ध्रा इत्यपद तद्धर्मस्य धर्मत्वम् महतो वीर्यमपे तन्महावीरस्य महावीरत्वम् यस्याः समभरन् तत्सम्भ्राज्यः सम्भ्रात्वम् अर्गस्त्रम् देवताः अज्ञप्रादःसवनम् इन्द्रममाध्यन्तिनपुंसवनम् विश्वेजावास्त्रीवनम् तेनापुषे कृष्णायज्ञेन याः नाभिन्धः न सुवर्गम् लोकमभ्यजयन् ते देवाश्विनामब्रुवन् भेजोगे स्थः ये यज्ञशिरप्रतिथत्वमिते तावब्रूताम् वरम् का क्षामेतमान् का वेदृप्रत्यसत्ता यत्र वर्गः केन सेत् न यज्ञेन यजमानाः अवायुजोरुन्धरा अभिजवर्गण्डयन् यत्र वर्गम् प्रवृणक्ते यज्ञश्रैव यज्ञेण यजमानः अवायुजोरुन्धे अभिजवर्गम् लागण्डे तस्मादेशाया इव यत्रवर्ग्यः सारित्रञ्जहारिप्रसो भवत्ये चतुर्भिहे तेन जहोते चतुष्पादप्रसवः पशोमेवावृन्धे वक्तिष्ठते छन्धामन् नवो भागानि हव्यम् रक्ष्यामि तेभ्येन चतुर्भिहे नवसारेण देवदायैवकाराय यक्षसर्गेण जहोदे सन्द्रागस्यैव्यस्य प्रेताम् वहन्ते ब्रह्मवादिना वहन्ते होतव्यन्ते क्षितस्य गृहातव्याभूयात् अविष्कृतैयमानमग्नौ प्रदध्यात् यज्ञपुरन्तर्यात् यदुरेव गायत्रीत्यमन्य तस्यैव कालाक्षिणेधापराः प्राविशत् पशोनर्धः यः पृथिवीम् प्राविशत् सखदिरो भवत् यः पशोन् खादिभ्युर्भवति छन्दतामेवरसेन यज्ञशिरः सम्भरे यजौदुम्बरे ओ युगावदुम्बरः देवयज्ञशिरः सम्भरे यज्ञै नवी तेजावे वेणः तेजदेव यज्ञशिरः सम्भरे यद्वैकङ्गते भा एवावरुन्धे देवस्यत्यादिप्रथमेत्यभिमादत्ते प्रथमवाक्ये अश्विनोः बाहुभ्यामित्याह अश्विनोभिदेवानामध्वर्यो आस्ता ओष्टाहस्ताभ्यामित्याहयत्यैः अद्रयवायभ्रिः अभ्रिनान्तेः अध्वरगद्देवेऽभ्यैत्याः यज्ञो वा अध्वरः यज्ञगद्देवेभ्य दिवावेददाः उच्चष्ठब्रह्मणस्वदैत्याः ब्रह्मणेव यज्ञस्य विरवक्षैते प्रै सुब्रह्मणस्पृशित्याः प्रेस्मिच्छ यज्ञा वेसून्दृदाः अच्छावेरमैत्याः यज्ञः देवायज्ञनयित्याः देवानेव यज्ञनियः कृत्याः आभ्यामेवानुमतो यज्ञस्मिदसम्भजे त्याः यज्ञा वै मखः यज्ञशिरैवाः मखायत्वाोकाः एभ्य एव लोकेभ्यो यज्ञशिरस्सम्भरे चे अपरिमितादेव यज्ञशिरस्सम्भरिहर तस्मान् वत्खणः कर्ण्यगमःित्याः अस्यामेव यज्ञचिरः सम्भजे कोर्जम् वा एव्यावरेका उद्दिहन्ते यद्वल्मेकम् यद्वल्मेकमपासम्भारः भवते वोर्जमेव रसम् पृथिव्यावरुन्धे अथवा श्रोत्रमेव श्रोत्रज्ञश्येतत्पृथिव्याः यद्वल्मेकः त्वम् यतो भवे यज्ञायैव अग्निजाप्रजापते दैत्याः य केवलपुशोऽशते तमेवावृन्धे पञ्चैर्यसम्भारा भवन्ते पान्तो यज्ञः यावानेव यज्ञः तस्य शिरः सम्भरते यद्ग्राम्यानाम् पशूनाम् कर्मणा सम्भरेत् ग्राम्यान् पुशोऽशुचार्पयेत् कृष्णाजलेन सम्भरते आरण्यानेव पशोऽन्सुचार्पयते तस्मात् समावत्पुशूनाम् प्रजायमानानाम् आरण्या पदवक्षणीयागुंशः सुजाविताः मदस्तंभर्ये तथा मेध्यम् परिव्यायन्ते रक्षदापहत्ये बहवो हरन्ते अपजलमेवास्मिन् द्रहे उद्धरे परिष्कृते नितसन्त्ये वदन्ते फल्वे तेजरे वास्मिन् दधादे मधुत्वा मधुराकरोमित्याह ब्रह्मणैव वृन्देजो दधाते यद्ग्राम्याणाम् पात्राणाम् कपालेकम् सृजयेत् ग्राम्याणि पात्राणि सुजार्पयेत् अर्मकपालेश्व एतानि वा नैवीयानि तान्नेव सुचार्पयते शर्कराभिः सकंसृजति सत्येः अथो सन्ताय अजरामयेसरे ेन वासुते अतो कृष्णार्जिनस्य लोपभिस्त्रगंसते यज्ञा वे कृष्णाजिनम् यज्ञेनैव यज्ञकं सजने परिश्रेकले ब्रह्मवर्चनस्य परिविहेत्यै न कुर्वन्नभिप्राण्यात् कुर्वन्नभिप्राण्यात् प्राणाञ्चिर्पयेत् अपहाय प्राणये न प्रवर्ग्यम् चा नित्यम् चान्तरेयात् निरन्तरेयात् दुश्चर्मा स्यात् तस्मान्नान्तर इयम् आत्मनागमपीठाय वेणुनाकरोदे तेजोगे वेणः तेजप्रभर्गः तेजदेव तेजः समर्थयते मखशिरोधेत्याह ते मखः तस्यैतच्छिरः यत्प्रभर्ग्यः तस्मादेवमाह यज्ञस्य पदयश्च इत्याह यज्ञस्य पदये अथवा पुरुषे नायत्रेण प्राछन्दसा करोमि इत्याह छन्दोभिरैवम् करोति लोकाः येषाम् लोकानामाद्ये छन्दोभिः करोति वीर्यम् वै छन्ताग्रन्थे वेर्ये नैवैनम् करोति यदिदाभिनम् करोति दिव्यावृत्ते यदेवम् करोमि प्रजापुरिणा यज्ञमुखेन संविधम् यन्तम् करोदे यज्ञपुरुषा संवितम् यन्तम् करोते एतावद्मे पुरुषवीर्यम् वीर्यसंविधम् अपरिमितम् करोते अपरिमितस्यावरुध्ये परिग्रीवम् करोध्ये सूर्यस्य हरदाश्रायेत्याह यथा यजुरवेदेन सूपयते राजावत्यो वा अश्वस्य यो नित्वाय कृष्णाश्वस्पश्वत्याह असौ वा वित्यो मृषाश्वः तस्य वारुणाभेद्धः मैत्रेयन्त्यये सिद्ध्यै त्वेत्याह यथायुजरेवे देवस्या सुब्दमर्चित्याह ेव्याः अस्मादग्निस्सर्वाविभादे उत्क्षब्रह्णो प्रत्यक्षध्रुवतमित्याह प्रचित्येश्वरो वा येषो यः प्रवर्गमन्वीक्षणे सूर्यस्य चक्षुषान्वीक्ष इत्याह चक्षुषा वा विधाय ृवेता साधरे ताक्षिते वा ऋजः अन्तरिक्षकम् सासो असौ सुक्षितिः विषभूतिः इमानेवास्मै लोकान् कल्पयति अथवा प्रदक्षत्ते इदमहमनुष्यायणम् विशा विषभद्ब्रह्मयुहात्याहेवेणब्रह्मयो हे विषयजराजन्यस्य ब्रूयाज विषयेवैनम्बर्यो हरे पशुभिरिवेश्वस्य पशुभिरेवैनम्र्यो हरे अतुर्यम् वा त्रमणाच्छन्नम् आक्षणत्वे देवत्रागः अजक्षीरेणाच्छ्रणत्यम् वा एतद्वयः एषक्षीरम् परमेणैवैनम्ब यथाक्षणत्ते यदुजा व्यावृत्ते छन्दोभिराक्षणत्ये छन्दोभिर्वा एष क्रियते छन्दोभिरेव छन्द्रागस्याक्षणत्ये जमित्याः वाचमेवावृन्ध सन्ध्योर्जमित्याः ऊर्जमेवावृन्धन्धिरित्याः अविरवाकः देवपुरस्क्या सन्धेत्याः यथायजरेवैक्रह्मलक्ष्य मोहोदर्घर्मेत्याह एत बृहपदेः यद्ब्रह्मा तस्मादेव प्रतिप्लाच्यप्रदने आत्मनार्थे यमायत्वा मुखायत्वे यत्याः एता वा एतस्य ताभिरेवेण समर्थयते त्वेभिः प्रोक्षते तेज एवास्मिन् दृशाले अभिपूर्वम् प्रोक्षते अभिपूर्वमेवास्मिन् तेजो दृशाले पृश्प्रवक्षते प्रया वृद्धियज्ञः अथो मे पृष्टभस्पतेर्गायत्रे विवान्वाः गायत्रो हि प्राणः प्राणमेवैतमाने सन्ततमन्वाः प्राणापहत्यै यद्वरिमितानुभ्रूयान् परिमितमवृन्धेन अवर्मितान्वाः अवरिमितस्यावरुध्यै श्लो वा एतत् लिङ्गस्य यत्र वन्यः ओञ्जाः यन्मोञ्जवेदोभवये यज्ञेते प्राणाहुलेऽपि होदे प्राणानेवेयजमाने ले सप्तजहोदे सप्तवेशीर्ण्याः प्राणाः प्राणानेवास्मिन् एवश्चादितामध्वा निक्त्याः तेन देवेन वनक्ये पृथिवे यस्मिन् हिरण् श्रीये अस्यानुदाहाय एध्प्र देव ो वा एतद्यज्ञस्य यत्र वर्जः अज्ञः सर्वा देवताः प्लवानादेप्योपाः श्री देवतास्ते यज्ञस्य अप्रतिशीर्णाग्रम्भवते एतत् अचेत्याः एतस्मिन् वयभवत्रे सङ्गेरस्तु महाकुम्भेत्याह महालक्ष्येजः ब्रह्मकारिणो वदन्ते हे देवावलिग्विजः हेजलुषपोर्णभासयोः अथ कथाहो नायजमानायादुषो नाशाः सविते पुरस्तादादेशे ना खलु वा अन्यो यज्ञः पुरष्ट्यादादेः अनादिष्या पुरस्तादिष्याः एव यज्ञमानादिशोवन्धे आय पुरस्तादाःक्षिणदः आनम्बश्चाद श्रोत्रमुत्तस्मै समीचो ईश्वरोपयन्ते पनोरश्वादिभूरिपुत्रे देवामभिवृषये इयम् वे मनोरश्वा भोरिपुत्रा अस्यामेव प्रतिष्ठत्यन्मादाय सोपसदामे भो यामायगम् जयन्त्याः जायेचरैत्याः अपजितमेवास्मिन् दधादे शिरोवा यजत् यज्ञस्य यत्रवर्यः अलोकलो तस्य मरुदोरश्मयः ताः मरुद्भ्यश्चेत्याः अमरे वा वित्तरसयःपर्यो हरे तस्मादधा वा वित्तकेरशः तस्मात्रा विजापर्ययो तस्मात् रावणे स जाते व्यङ्गदम् वा आचर यद्वैयङ्गदाः परिषया भवन्ते भा एवावरुन्धे द्वादशभवन्ते द्वादशमादाः संवत्सरः संवत्सरमेवावरुन्धे अस्ति त्रयोदशमास इत्याहो यत्रयोदशपरिषर्भवने तेनैव त्रयोदशमासमवरुन्धे अन्तरिक्षस्यान्तर्जिरथेत्याह व्यावृत्ते श्रीमन्धमत्युपरिष्ठादिभिरमधिनिदधामिष्य आन्याहाय अथो आद्यामेवगृह्णाय अलह नृभनिषायन्वेत्याः देवेन गायत्रमधित्रेक्ष्पमधिजागतवशे हवित्राण्यादत्तरेवन्यादत् मधुमध्विधो नोदे प्राणो प्राणमेव न्ते प्रिया वृद्धेज्ञः पुनः पर्यन्ते तत्संवर्ध्यन्तेवः प्रतिष्ठन्ते यो मे धर्मस्य प्रियान्तश्च प्रियान्तर्ये एतागृह्म्रामात्रे अव्यतिषङ्कन्धोन्वन्ते प्राणानामभ्यतिषङ्कानि गयेन्वन्ते ओद्बन्धो वन्वन्ते स्वर्गस्य लोकस्य चमक्षे सर्वदान्वन्दे तस्मादेवम् सर्वदः पवने अग्निष्टा मधुभेत्पुरस्था द्रोजेदुगायित्रेण छन्द्रयत्याह अग्निरेवेण मधुभेत्पुरस्ता द्रोजेदुगायित्रेण छन्दसा द्रोजे समादिशदोरोत्याः आदिषमेवैतामाशास् इन्द्रस्कारत्रयदक्षिणदौरोत्रयष्टुभेण छन्द्रयत्याह इन्द्रगेवणौरुद्रैर्दक्षिणतोत्रैष्णभेण छन्दसा समारुजदोरोत्याह आदिषमेवेदामासाश्च वरुणस्तादित्ये पश्चाद्रोचयतु जागरेण छन्दसेत्याह वरुणयेन मादित्ये पश्चाद्रोजयतुजागरेण छन्दसा समारुजदारोत्याः आदिषमेवेदामासाश्च मार्भ्यरत्तरो एकत्वानुष्ठभेन माधो मध्यरत्तरो एगच्छत्याः आश्रमेव देवे वृष्टा द्रोजेष्वान्त्यः बृहस्पतिदेवेण विश्वे देवे वृष्टा द्रोजेष्वान्त्य समाजद्वारात्याः आश्रमेवेदास्य रोचनस्वन्देव धर्मदेवेश्व चेत्याः रोज्वाक्येषु देवेषु मनुष्यः रोचन एवेषु मनुष्येषु सम्राट् धर्मजस्वन्देश्वायुष्मागश्च यस्य ब्रह्मवत्रस्य चेत्याः ऋज्वाक्ये देवेश्वायुष्मागश्च यस्वे ब्रह्मवत्रसे स्य श्वायुष्मागश्चेत् ब्रह्मवत् देहो यामित्याः श्वायुष्मागश्चे ब्रह्मवत् देहो यः आजरमेवतामाशाश्चेर्विदभ्यो जयित्वाभ्रूयान् अरोजोध्वर्यस्यान् अरोजो विजमानः अथ यदे यदुद्धे लोचयित्वा श्रुत्वाग्धर्युद्भवति रोचुप्रजमानः